मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं सिक्स् दक्षकन्यावंशवर्णनं श्रीगणेशाय नमः मुद्गल उवाच तदस्वायम्भुवो यादो ब्रह्माणं प्रणनामसः शतरूपा तथा तं वै जग्मदुस्तौ तदाज्ञया राज्यम च कारध मनुशस्त्रधर प्रभु धर्मयुक्तों महातेज गाणपत्य प्रिभवत दव पुत्रौ शतू कन्यास्तिस प्रजाप मैथुन मगेण समुत् बभौ मनु प्रियव्रदोत्तानपादौ पुत्रौ तस्य च धीमतः आकूतिर्देवहूतिश्च प्रसूतिश्च सुलोचनाः कन्यास्तिस्रसमाख्यादा मनोस्तस्य महात्मनः प्रसूतिं स ददौतुभ्यमाकूतिम् रुचये तथा देवभूतिं मनुस्तत्र कर्दमाय ददौ स्वयं येवमादि एवमादिमहाराजश्चकारविधिनोदिदः कर्दमस्तपसा विष्णुं तोषयामास यत्नदः सदवर्षाय प्रसन्नो भूत्ययौ धादुं वरं द्विजम् तं ययाचे स पुत्रस्त्वं भव मे जगदीश्वर वरं दत्त्वा स्वयं विष्णोर्ययौ वैकुण्ठमञ्जसा तद वै देवहूत्यां वै विष्णुकपिलरूपदृक तस्य पुत्रत्वमापन्नो वरदानप्रभावदः आहूत्या मिथुनं जज्ञे रुचेर्वै मानसं परम् यज्ञश्च दक्षिणादेवी याभ्यां संवर्धितम् जगद यज्ञो विष्णो महाभागो दक्षिणायां सुतान् शुभान् द्वादशा जनयच्छैव या मादेवाश्च ते स्मृताः ततो यज्ञस्तपोयुक्तः भवत्प्रभुः गणपं योगमार्गेण तोषयामास सर्वदा कृत्वा मणिमयी मूर्तिं गणेशस्य चतुर्भुजां नित्यं पूजयत् भक्तिभावितः तदो गणपतिप्रीदो ददौ योगं महद्भुदं तेन योगेन्द्रमुख्योऽसौ गणपत्यो बभूवः हे रम्बेदि सदा मन्त्रं यज्ञो हर्षा शिष्येभ्य प्रददव्योगं गणपत्यं मुदान्विदः प्रसूत्यां जनयामास कन्या दक्षप्रजापतिः चतुर्विंशतिसङ्ख्यादा च क्रियं श्रद्धालक्ष्मीर्धृधिस्तुष्टिपुष्टिर्मेधा क्रिया तदा बुद्धिर्लज्जा वपुः शान्तिसिद्धिः कीर्तिस्त्रयो दश ददौ धर्माय पत्न्यर्थं दक्षो कृष्टमना मुने ब्रह्मणा नोदितश्चैव तासां सूदिं वदामि ते श्रद्धा पुत्रस्मृतः कामोऽर्थश्च लक्ष्मीसुतो भवद धृत्यास् सुनियमपुत्रस्तुष्ट्याः सन्तोषसञ्ज्ञितः पुष्ट्यां लाभः सुधो जज्ञे मेधापुत्र शमस्मृदः क्रियायाश्च स्मृतौ पुत्रौ दण्डः समय एव च बुद्ध्या बोधो भवत्पुत्रश्चाप्रमादः प्रकीर्तितः लज्जाया विनयश्चैव वपुषो व्यवसायकः शान्तिपुत्रस्तथा क्षेमः सिद्धे सिद्धः सुधो भवद यशकीर्तिसुधः धर्मसूनवः कामस्याभूत्सु दोहर्ष परस्मृतः, इत्येष सुखरूपस्तु सर्गो धर्मस्य कीर्तिदः प्रसङ्गात्तं वदिष्यामि सर्गो धर्मस्य दुःखदः ब्रह्मणः पृष्टतस्तद्वन्मिथुनं अधर्मश्च तथा हिंसा तयोः पुत्रो नृतस्मृतः निकृतिश्च सुधा प्रोक्ता तयोर्जज्ञे भयं तथा नरकश्च तथा मायावेदना च सुदे स्मृतेर्भयाजज्ञे च मायां मृत्युः सर्वापहारकः नरकाद्वेनायां च दुःखं संसारकारकं मृत्योर्व्याधिर्जराशोकस्तृष्णा क्रोधश्च जज्ञिरे दुःखो दर्का स्मृता सर्वे ह्यधर्मप्रभवा मुने नैदेशां प्रसवश्चास्ति सर्वेते ते थूर्ध्वरेतसखा एकादशसुदाशिष्टास्तासां वंशं निबोधय सतीं ददौ स रुद्राय भृगवे तथा मरीचये च सम्भूतिं स्मृतिमङ्गिरसे ददौ पुलस्थाय तथा ददावूर्ज्वं वसिष्ठाय मुने स्वाहां च वह्नये पितृभ्यश्च स्वधां देवीं ददौ दक्षप्रकर्षितः नियोगाद्ब्रह्मणः साक्षात् वंशं वदामि ते सत्यां च शङ्कराजज्ञे कार्तिकेयो महाबलः देवसेनापदित्वे सावभिषिक्तश्च वेधसाख्यात्यां मृगो समुत्पन्ना लक्ष्मीनारायणप्रिया देवव धातृविधातारौ मेरोमातरौ स्मृतौ अयदेर्नियदिश्चैव कन्ये मेरोश्च ते मुने जादौ श्रेष्ठौ सुधाबुभौ मृकण्डोऽन्यस्तथा प्राणो मार्कण्डेयो मृकण्डजः तथा वेदशिराः प्रोक्तः प्राणस्य द्युदिमान्सुतः मरीचिरपि सम्भुत्यां पूर्णमासमसूयत कन्या चतुष्टयं चैव सर्वलक्षणमण्डितम् ृषिर्वृष्टिस्तथा कृष्टिश्च दुर्घ्यपचितिर्मुनेर्विरजा पर्वतश्चैव पूर्णमासस्य तौ सुतौ क्षमा च शुषुवे पुत्रान् पुलभाच्च प्रजापतेः कर्मश्रेष्ठं वरीयांसं सहिष्णुं मुनिपुङ्गवं तथा वनकवीनासं तपस्तेजस्विनं सुदम् अत्रैर्वंशम् प्रवक्ष्यामि शृणु शौनकचादराद अत्रिः सञ्चनयामासनसूयायां सुदाुभान् सोमम् दुर्वाससं चैव दत्तम् तथा त्रयो देवा इमे प्रोक्ता अत्रे पुत्रा महात्मनः ब्रह्मा भवश्च विष्णुश्च कलांशेन प्रजाधराः स्मृत्या मङ्गिरसोचज्ञे शिनीवाली सुलोचना कुहुराका तथा पुत्र्यनुमतिश्च पतिव्रता प्रीत्या पुलस्त्ययोगीशादयो निरभवत्सुधः पूर्वजन्मनि विप्रेष्यो गस्त्योयं परिकीर्तितः देवबाहुस्तथा कन्या सर्वाङ्गैशोभिनी स्मृदा स्यं ष्टिसाहस्रीं पुत्राणसृजद्रदु त ऊर्धत सर्व वालकल्याम सप्तुत्र ऊर्जायां वसीष जनयद प्रभु कन्या कमलप्राक्षी चित्रकेदुसुचक विरज मित्रबण वसुभृत्परः कुमान् शक्त्यादयश्चान्ये सप्तपुत्रा महौजसः यत्सौरुद्रात्मकौ वह्निस्वाहाय त्रीन् सुतांस्तथा जनयामास तेजस्वी ते घ्नयः परिकीर्तिताः पावकः पवमानश्च शुचिस्ते जनयन्सुतान् प्रत्येकं वै दग्नयः सर्वे तेजस्विन प्रोक्ता सर्वे यज्ञेषु भागिनः निर्मध्य पवमानस्तु ससुतः परिकीर्तितः वैद्युधपावकप्रोक्तः ससुतः शास्त्रसम्मदः सूर्ये तपदि योऽग्निश्च शुचिस्मृतः सर्वत्रगस्वरुद्रात्मा ब्रह्मपुत्रोग्निरुच्यते अमूर्तयोऽग्निष्वात्ता हि साङ्घा बर्हिषदस्मृताः पितरश्च स्वधातेभ्योऽसुदद्वे तनये तदा मे नाचधरणि ते उभे ब्रह्मवित्तमे असूदमेन मैनागं क्रौञ्चं हिमवदो मुने गङ्गां लोकपवित्रां च पार्वतीं परमेश्वरीं ते उभे शङ्करं देवं लेभाते पदिमुत्तमं तपसा गिरिराजेन मेन याधिता सदी वरदानप्रभावेण पार्वती तनया भवद धि मेरुशैलस्य पत्नीकन्ये प्रजापते सुषुवे चायतिं चैव नियतिं कथिते पुरा येषा दक्षस्य कन्यासु सन्तधिः कथिता मया पठते शृण्वतश्चैव सर्वकामफलप्रदा ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते दक्षकन्या वंशवर्णनं नाम षष्ठोऽध्यायः ओम्